मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं तर्टि मौद्गलनित्यश्रवणमाहात्म्यवर्णनं श्रीगणेशाय नमः सुद उवाच राजा भूश्चाक्षुषे सुमेधो नामधारकः नानाधर्मपरो यज्वादामानी महाबलः सर्व शास्त्रार्थतत्त्वज्ञो द्विजदेवातिथिप्रियः सप्तद्वीपाधिपो भूत्वा सचक्रे राज्यमुत्तमं एवं राज्यपरो राजा सर्वेषां हितकारकः वान्ध्यदोषसमायुक्तो बभूवातीव दुःखितः पुत्रप्राप्त्यर्थमादराद नालभत्पुत्रमानन्ददायकं दुःखितो भवद पत्न्या विचार्य राजासौ त्यक्त्वा राज्यं तया सह प्रधानेषु वनं घोरं ययौ सुमेधा यत्र तदो महावनं राजा ददर्श भयदायकं मरणे निश्चयं कृत्वा प्रविवेश महावनं तत्र व्यालामृगाव्याक्रा पपुलुस्थं निरीक्ष्यते ततो राजा प्रियायुक्तो बभ्रामभ्रान्तवद्यथा तत् त्र क्रतुं ददर्शापि महायोगीन्द्रमुत्तमम् कृताञ्जलिस्त्रियाविप्रं प्रणनाम पुरस्थितः तुष्टावतं विधे पुत्रम् तेजोयुक्तं प्रजापदिं। सन्तुष्टस्तं महीपालं समाश्वास्य जगादः दुःखं किं ते महीपाल किमर्थं वद चागदः राजा तस्मै स्ववृत्तान्तं कथयामास विस्तराद् तच्छ्रुत्वा ध्यानसंयुग्धो बभूव मुनिसत्तमः जकादनृपदिं विप्रक्रदुस्थं हर्षयन्निव मौद्गलं शृणुराजस्त्वम् पुत्रयुक्तो भविष्यसि मुदिदो राजशार्दूलस्तम् प्रणम्य तदाज्ञया ययौ स्वनगरं चित्रं पुरोहितमुवाचः श्रुत्वा वृत्तं गुरुस्तस्य शाण्डिल्य सर्वशास्त्रविदत् जगादत्तम् महीपालं हर्षनिर्भरमानसः शाण्डिल्य उवाच मौद्गलं चानयिष्यामि सर्वसिद्धिप्रदायकं श्रावयिष्यामि ते राजन् मा चिन्तां कुरु निश्चितं यवमुक्त्वा यौ सो विक्रतुं योगीन्द्रवन्दितं तं प्रणम्य यथा मौद्गलं श्रुतवान् परम् लेखयित्वा स्वयं विप्रशाण्डिल्य सर्वतत्त्वविदयौ सुमेधसम्भुवं जगादवचनं हितं शाण्डिल्य उवाच मौद्गलेन समं राजन्न किञ्चिद्वर्तते परं शास्त्रं योगीन्द्रवन्द्यं तत्सर्वसिद्धिप्रदायकं क्रतो प्रसादमाहात्म्यान्मया परम् शृणु नित्यमहाराज मौद्गलं सर्वमुद्गलं यवमुक्त्वा स्वयं विप्रः समारभदहर्षिदः मौद्गलं तम् प्रणम्यादौ जगाद नृपसत्तमः सुमेधा उवाच मुहूर्तं पश्य विप्रेष शुभदं तत्पुनः प्रभो मौद्गलं कथयस्वत्वं सर्वसिद्धिकरं परं शाण्डिल्य उवाच क्षणभङ्गुरदेहोऽयं न विश्वास्यो महीपदे विघ्नराज्यं स्मरत्वं वै तेन कालशुभो भवेद गाणेशं नृप शार्दूल यत्किञ्चित् सर्वसिद्धिदं तत्र द्विविधभावेन स नरोत्तम मुहूर्तं शुभमालोक्याधवतं गणपं स्मरन् स्मारभेन्न सन्देहो मान्यत्वं तु विचारय यवमुक्तो नृपस्थेन तथेत्युक्त्वा स्त्रिया सह शुश्राव मौद्गलं नित्यं शाण्डिल्यधर्मसंयुधः ततः स्वल्पे गदे काले गर्भयुक्तां निरीक्ष्यतां पत्नी महीपति सर्वैर्हर्षयुक्तो बभूवः पुत्रं सा शुषुवे साध्वी सर्वलक्षणसंयुधं राजा नित्यं सुहर्षेण शुश्रुवे मौद्गलं परं तदेकनिष्ठभावस्थो बभूवे नित्यमादराद अन्ते नगरसंयुक्तो जगाम गणपं परं तत्र दृष्ट्वा गणेशानां ब्रह्मीभूतो बभूवः जनैः सार्धं सुमेधास्तु पुराणश्रवणेन वै शाण्डिल्योऽपि वनं गत्वा नित्यं विघ्नेशमाभजत गणेशाग्रे पुराणं स कथयामास मौद्गलम् निम भाव तत्परो भवद, योग, युदो सयुक्त मौदे तत्परोद शांतियुदो भूत् सेवत्म गणनायक्रर्वस सर्व, बूव ब्राह्मणाग्रणी अन्दे गणेशर प्राप योगिवंद्यो महायश तस्श्रमो गणेश क्षेत्रमूच्च सिद्धितं दर्शनाद्यैर्महाविप्र सर्वसौख्यकरं परं एवं नित्यजपे शक्दा मौद्गलस्य महामुने इह भुक्त्वा प्रभोगांस्ते ब्रह्मभूता बभूविरे ॐ तत्सदिति श्रीमदान्ध्ये श्रीमन् माौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ओम्